जनमे जय उवाच बालाभिरूपस्य तव प्रमेय वरं प्रयच्छामि यथानुरूपम् वृणिष्व यत्तेऽभिमतम् हृदि स्थितम् तत्ते प्रदास्याम्यपि चेददेयम् ऋत्विजौचुः अयमायातितूर्णम् स तक्षकस्तेवशं नृपः श्रूयते स्य महान्नादो न दतो भैरवम् रवम् नूनम् भ्रष्टो नाकान्मन्त्रविस्रस्तकायः घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति तीव्रान्निश्वासान्निश्वसन्पन्नगेन्द्रः सौतिरुवाच पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसी इदमन्तरमित्येव तदास्तीकोऽभ्यचोदयत् आस्तीक उवाच वरम् ददासि चेन्मह्यम् वृणोमि जनमे जय सत्रम् ते विरमत्वे तन्नपते युरिहोरगाः एवमुक्तस्तदा तेन ब्रह्मन् पारिक्षितस्तु सः नातिहृष्टमनाश्चेदमासीकम् वाक्यमब्रवीत् सुवर्णम् रजतम् गाश्च यच्चान्यन्मन्यसे विभो तत्ते दद्याम् वरम् विप्र न आस्तीक उवाच सुवर्णम् रजतम् गाश्च न त्वाम् ते विरमत्वे तत्स्वस्ति मातृकुलस्य नः सौतिरुवाच आस्तीकेनैव मुक्तस्तु राजा पारीक्षितस्तदा पुनः पुनरुवाचेदमास्तीकम् वदताम् वरह अन्यम् वरय भद्रम् ते वरम् द्विजवरोत्तम अयाचत न ततो वेदविदस्तात सदस्याः सर्वये वतम् राजानमूचुः सहिता लभताम् ब्राह्मणो वरम् इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि आस्तीकवरप्रदानम् नाम षट्पञ्चाशत्तमोऽध्यायः